पादपाठम् उत एदानीं भगवन्तः स्याम उत प्रपि उत मध्ये अह्नाम् उतोदितामघवन्तसूर्यस्य वयं देवानां अह्नाम् उतोदितामघवन्थसूर्यस्य वयं देवानां सुमतौ स्याम उतदानीं भगवन्तः स्याम उत वयं देवानां सुमतौ स्याम